श्रीहरये नमः अथ पञ्चमोऽध्यायः श्रीशुक उवाच पुत्राणो वर्ण्यते भीष्णं विश्वात्मा भगवान हरिः यस्य प्रसादजो ब्रह्म रुद्रक्रोधसमुद्भवः त्वं तु राजन्मरिष्येति पशुबुद्धिमिमां जहिं न जातः प्राग्भूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि न भविष्यसि भूत्वा त्वं र्व्यतिरिक्तो यथा नलः स्वप्ने यथा चिरश्चेतं पञ्चत्वाध्यात्मनः स्वयं यस्मात् पश्यति देहस्य तथा आत्मा ह्यजोमरः घटे भिन्ने यथाकाश आकाशस्याद्यथा पुरा एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः मनसृजति वै देहान् गुणान् कर्म तन्मनसृजते माया ततो जीवस्य संसृतिः स्नेहादिष्टा नवर्त्यग्निसंयोगो यावदीयते ततो दीपस्य दीपत्वमेवं देहकृतो भवः रजसत्त्वतमो वृत्त्या न तत्रात्मा स्वयं ज्योतिर्यो व्यक्ताव्यक्तयो परः आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः एवमात्मानमात्मस्थम् आत्मानैवामृष प्रभो बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया चोदितो विप्रवाग्ये न त्वां दक्षति तक्षकः मृत्यवो नोपदक्ष्यन् मृत्यूनां मृत्युमीश्वरम् अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् एवं शमीशनात्मानम् आत्मनि आदाय निष्कले दशन्तं तक्षकं पादे लेलिखानं विषाननैः नद्रक्षसी द्रक्षसि शरीरं च विश्वं च पृथगात्मनः एतत् ते कथितं तात यथात्मा पृष्ठभानृप हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि इति श्रीमद्भागवते महापुराणे द्वादशस्तन्ते ब्रह्मोपदेशो नाम पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथ महाराज की जयी